चतुष्षष्टितमः सर्गः स दीनो दीनयावाच लक्ष्मणम् वाक्यमब्रवीत् शीघ्रम् लक्ष्मणजानीहि गत्वा गोदावरीम् नदीम् अपि गोदावरीम् सीता पद्माम् ज्ञानयितुम् गता एवमुक्तस्तु रामेण लक्ष्मणः पुनरेवी नदीम् गोदावरीम् रम्याम् जगामलघु विक्रमः म् लक्ष्मणस्तीर्थवतीम् विचित्वा राममब्रवीत् नैनाम् पश्यामि तीर्थेषु क्रोशतो न शृणोति मे कम् नु सा देशमापन्ना वै देही क्लेशनाशिनी न हि तम् वेद्मि वै राम यत्र सा सताम पस्थितो क्व सीतेत्येवमब्रवीत् भूता निराक्षसेन्द्रेण वधार्हेण हृतामपि न ताम् शशंसू रामाय तथा गोदावरी नदी ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति न च सा रामेण शोचता रावणस्य च तद्रूपम् कर्मापि च दुरात्मनः ध्यात्वाभयात्व वैदेहीम् सा नदीनशशंसः निराशस्तु तया नद्या सीताया दर्शने कृतः उवाच रामः सौमित्रिम् एषा गोदावरी सौम्य किञ्चिन्न प्रतिभाषते किम् न वचः मातरम् चैव वैदेह्या विनातामहमप्रियम् यामे राज्यभिहीनस्य वने वन्येन जीवतः सर्वम् व्यपानयच्छोकम् वैदेही क्वनुसागता ज्ञातिवर्गविहीनस्य वैदेहीमप्यपश्यतः मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः मन्दाकिनीम् जनस्थानमिमम् प्रश्रवणम् गिरिम् सर्वाण्यनुचरिष्यामि यदि सीता हि लभ्यते एते महामृगा वीरमामीक्षन्ते पुनः पुनः वक्तुकामा इह हि मे इङ्गितान्युपलक्षये नरव्याघ्रो राघवः प्रत्युवाचः क्व निरीक्षन् वै बाष्पसमृद्धया एवमुक्ता नरेन्द्रेण ते मृगाः दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभः स्थलम् मैथिली ह्रियमाणा सा दिशम् यामभ्यपद्यत तेन मार्गेण गच्छन्तो निरीक्षन्ते न राधिपम् येन मार्गम् च भूमिम् च निरीक्षन्ते स्म ते मृगाः पुनर्नदन्तो गच्छन्ति ते लक्ष्मणेनोपलक्षिताः तेषाम् वचन सर्वस्वम् लक्षयामास चेङ्गितम् उवाच लक्ष्मणो धीमाम् ज्येष्ठम् भ्रातरमार्तवत् क्व सीतेति यथे मे सहसोत्थिताः दर्शयम् तीक्षितिम् चैव दक्षिणाम् च दिशम् मृगाः साधु गच्छावहे देव दिशमेताम् च नैरृतीम् यदि तस्यागमः कश्चिदार्या वासाथ लक्ष्यते बाढमित्येव वा काकुत्स्थः प्रस्थितो दक्षिणाम् दिशम् लक्ष्मणानुगतः श्रीमान्वीक्षमाणो वसुन्धरा एवम् सम्भाषमाणौ तावन्योन्यम् भ्रातराबुभौ वसुन्धरायाम् पतितपुष्पमार्गमपश्यताम् पुष्पवृष्टिम् निपतिताम् दृष्ट्वा रामो महीतले उवाच लक्ष्मणम् वीरो दुःखितो दुःखितम् वचः अभिजानामि पुष्पाणि तानीमानीह लक्ष्मणा अपि नद्धानि वैदेह्या मया दत्तानि कानने मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् एवमुक्त्वा महाबाहुर्लक्ष्मणम् पुरुषर्षभम् उवाच रामो धर्मात्मागिरिं गिरिम् प्रस्रवणाकुलम् कच्चित् सर्वाङ्गसुन्दरी रामारम्येव मनोद्देशे मया विरहिता त्वया क्रुद्धोऽ ब्रवीद्गिरिम् तत्र सिंहः क्षुद्रमृगम् यथा ताम् हेमवर्णाम् हेमाङ्गीम् दर्शय पर्वत यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् एवमुक्तस्तु रामेण प्रति दर्शयता सीताशयत राघवे तथो दाशरथी राम उवाच चिलोच्चय मम बाधो भस्भू भविष्य हसे्यत निस्तृणद्रुम पल्लव इंवासित चाद श शोषयिष्या लक्ष्मण यदि नाख्याति मे सीता चंद्र निभानना एवम् प्ररुषितो रामो दिधक्षन्निव चक्षुषा ददर्श भूमौ निष्क्रान्तम् राक्षसस्य पदम् महत् त्रस्ताया रामकाङ्क्षिण्याः प्रधावन्त्या इतस्ततः राक्षसेनानुसृप्ताया वैदेह्याश्च पदानि तु स सीताया राक्षसस्य च भर्गंधनु तूणी च विर्ण बहुधारथं संभ्राद वैदेह्या कीर्णा प्रियेहकर् कनकबिंदव भूषण सौ बाधा चिंदुनकाश् क्षतज बिंदु आवृत पश्य सौरणीत मन्ये लक्ष्मणवैदेही राक्षसैः कामरूपिभिः भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति तस्या निमित्तम् सीताया द्वयोर्विवदमानयोः बभूवयुद्धम् सौमित्रे घोरम् राक्षसयोरिह मुक्तामणिचितम् चेदम् रमणीयम् विभूषितम् धरण्याम् पतितम् सौम्यकस्य भग्नम् महद्धनुः राक्षसानामिदं वत्ससुराणामथवापि वा तरुणादित्यसङ्काशम् वैदूर्य गुलिकाचितम् विशीर्णम् पतितम् भूमौ कवचम् कस्य काञ्चनम् छत्रम् शतशलाकम् च दिव्यमाल्योपशोभितम् भग्नदण्डमिदम् सौम्य भूमौ कस्य खराः भीमरूपा महाकायाः कस्य वा निहतारणे दीप्तपावकसङ्काशोद््युतिमान् समरध्वजः अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको प्रतोताभीषु हस्तोऽयम् कस्य वा सारथिर्हतः पदवीपुरुषस्यैषा व्यक्तम् कस्यापि रक्षसः वैरम् शतगुणम् पश्य मम तैर्जीवितान्तकम् सुघोरहृदयैः सौम्यराक्षसैः कामरूपिभिः हृतामृता वैदेही भक्षिता तपस्विनी अधर्मस्त्रायते सीताम् ह्रियमाणाम् महावने भक्षितायाम् हि वैदेह्याम् हृतायामपि लक्ष्मणा के हि लोके प्रियम् कर्तुम् शक्ताः सौम्यममेश्वराः कर्तारमपि लोकानाम् शूरम् करुणवेदिनम् अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण मृदम् लोकहिते युक्तम् दान्तम् करुणवेदिनम् निर्वीर्य इति मन्यन्ते नूनम् माम् त्रिदशेश्वराः माम् प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण अद्यैव सर्वभूतानाम् रक्षसामभवाय च संहृत्यैव शशिज्योत्स्नाम् महान् सूर्य इवोदितः संहृत्यैव गुणान् सर्वान् नमतेजः प्रकाशते नैव यक्षानगन्धर्वानपि शाचान राक्षसाः किन्नरा वा मनुष्या वा सुखम् प्राप्स्यन्ति लक्ष्मणा ममास्त्रबाण सम्पूर्णमाकाशम् पश्य लक्ष्मणा असम्पातम् करिष्यामि ह्यद्यत्रैलोक्यचारिणा सन्निरुद्धग्रहगणमावारितनिशाकरम् विप्रनष्टानलमरुद्भास्कर द्युतिसंवृतम् विनिर्मथितशैलाग्रम् शुष्यमाण जलाशयम् ध्वस्तद्रुमलता गुल्मम् विप्रणाशितसागरम् त्रैलोक्यम् तु करिष्यामि संयुक्तम् कालकर्मणा न ते कुशलिनीम् सीताम् प्रदास्यन्ति ममेश्वराः अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मणा मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम् मर्दितम् मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् समाकुलमर्यादम् जगत्पश्याद्यलक्ष्मणा आकर्णपूर्णैर्षुभिर्जीवलोकदुराबरैः करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् अमरोष प्रयुक्तानाम् विशिखानाम् बलम् सुराः नैव देवा न दैतेयानपि शाचानराक्षसाः भविष्यन्ति मम क्रोधा त्रैलोक्ये विप्रणाशिते देवदानवयक्षाणाम् लोकायै रक्षसामपि बहुधा निपतिष्यन्ति बाणौघैः सकलीकृताः निर्मर्यादानि मान लोकान् करिष्याम यद्यसायकैः हृतामृताम् वा सौमित्रे न दास्यन्ति ममेश्वरा तथा रूपाम् हि वै देहीम् न दास्यन्ति यदि प्रियाम् नाशयामि जगत् सर्वम् त्रैलोक्यम् सचराचरम् यावद्दर्शनमस्या वै तापयामि च सायकैः इत्युक्त्वा क्रोधताम् राक्षस्फुरमाणोष्ठसम्पुटः मल्कलाजिनमाबध्य जटाभारमबन्धयत् तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः त्रिपुरम् जघृषः पूर्वम् रुद्रस्येव बभूतनुः लक्ष्मणादथ चादाय युगान्ताज्ञरिव क्रुद्ध इदम् वचनमब्रवीत् यथा जरा यथा यथा कालो यथा विधिः नित्यम् न प्रतिहन्यन्ते सर्वभूतेषु तथा तथाहम् क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् पुरेव मे चारुदतीमनिन्दिताम् दिशन्ति सद ग्धर्वनुष्यपन्नगैल पतयाम्यहम इशे श्रीमद् राये वाक्य कांडे चुष्ष्टित सग